अथ चतुर्थः सर्गः श्रुत्वा हनूमतो वाक्यम् यथावदनुपूर्वशः ततो ब्रवीन्महातेजारामः सत्यपराक्रमः से लङ्काम् पुरीम् भीमस्य रक्षसः क्षिप्रमेणाम् सत्यमे सत्यमेतद्ब्रवीमि ते अस्मिन्मुहूर्ते सुग्रीव प्रयाणमभिरोचय युक्तो मुहूर्ते विजये प्राप्तो मध्यम् दिवाकरः सीताम् हृत्वा तु तद्या तु क्वासौ यास्यति जीवितः सीता श्रुत्वाभियानम् मे आशा मेष्यति जीविते जीवितान्ते मृतम् स्पृष्ट्वा पीत्वा मृतमिवातुरः उत्तराफाल्गुनीह्यद्यश्वस्तु हस्तेन योक्ष्यते अभिप्रयाम सुग्रीव सर्वाणीकसमावृताः निमित्तानि च पश्यामि यानि प्रादुर्भवन्ति वै निहत्य रावणम् सीतामानयिष्यामि जानकीम् उपरिष्टाधिनयनम् स्फुरमाणमिमम् मम विजयम् समनुप्राप्तम् शंसतीव मनोरथम् ततो वानरराजेन लक्ष्मणेन सुपूजितः उवाच रामो धर्मात्मा पुनरप्यर्थको विदः अग्रे यातु बलस्यास्य नीलो मार्गमवेक्षितुम् वृतशतसहस्रेण वानराणाम् तरस्विना फलमूलवता नीलशीतकाननवारिणा दूषयेयुर्दुरात्मानः पथि मूलफलोदकम् राक्षसाः पथि रक्षेथास्तेभ्यस्त्वम् नित्यमुद्यतः निम्नेषु वन दुर्गेषु वनेषु च वनौकसः अभिप्लुत्याभिपश्येयुः परेषाम् निहितम् बलम् यत्तु फल्गु बलम् किञ्चित्तदत्रैवोपपद्यता एतद्धि घोरं घोरम् नो विक्रमेण प्रयुज्यताम् सागरौघनिभम् भीममग्रानीकम् महाबलाः कपिसिंहाः प्रकर्षन्तु शतशोथसहस्रशः गजश्च गिरिसङ्काशो गवयश्च महाबलः गवाक्षश्चाग्रतो यातु गवाम् दृप्त इवर्षभः यातु वानरवाहिन्या वानरः प्लवताम् पालयन् दक्षिणम् पार्श्वमृषभो वानरऋषभः गन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः पार्श्वमधिष्ठितः यास्यामि बलमध्येहम् बलौघमभिहर्षयन् अधिरुह्यः नोमन्तमैरावतमिवेश्वरः अङ्गदेनैष सार्वभौमेन भूतेशो द्रविणाधिपतिर्यथा जाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः लक्षराजो महाबाहुः कुक्षिम् रक्षन्तु ते त्रयः राघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः व्याधिदेशमहावीर्यो वानरान् वानरर्षभः ते वानरगणाः सर्वे समुत्पत्यमहौजसः गुहाभ्यः भ्याश्य शिखरेभ्यश्च आशु तदा ततो वानरराजेन लक्ष्मणेन च पूजितः जगामरामो धर्मात्मा ससैन्यो दक्षिणाम् दिशम् शतैः शतसहस्रैश्च कोटिभिश्चायुतैरपि वारणाभैश्च हरिभिर्ययौ परिवृतस्तदा तम् यान्तमनुयान्ती सा महती हरिवाहिनी हृष्टाः प्रमुदिताः सर्वे सुग्रीवेणाभिपालिताः आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः क्ष्वेलन्तो निणदन्तश्च जग्मुर्वै दक्षिणाम् दिशम् भक्षयन्तः सुगन्धीनि उद्वहन्तो महावृक्षान्मञ्जरी पुञ्जधारिणः अन्योन्यम् सहसादृप्ता निर्वहन्ति क्षिपन्ति च पतन्तश्चोत्पतन्त्यन्ये पातयन्त्यपरे परान् रावणो नो निहन्तव्यः सर्वे इति गर्जन्ति हरयो राघवस्य समीपतः पुरस्तादृशभो नीलो वीरः कुमुद एव पंथान शोधयती स्म वानु सह मध्ये तो राज सुग्रीव लक्ष्मण बलिबुर्भमेृत शत्रुर्ण हरिशत बलिर्वीर कोटिर्दशेको ह्यष्टभ्यरक्ष हिवाहिनी कोटीशतपरी कैसरी पनसो गज अर्कश्च बहुभिः पार्श्वमेकम् तस्याभिरक्षति सुषेणो जाम्बवांश्चैव रक्षैर्बहुभिरावृतौ सुग्रीवम् पुरतः कृत्वा जघनम् संरक्षतुः तेषाम् नीलो वानरपुङ्गवः सम्पतन् प्लवताम् श्रेष्ठस्तद्बलम् पर्यवारयत् दरीमुखः सर्वतश्च ययुर्वीरा स्थरयन्तः प्लवङ्गमान् एवम् ते हरिशार्दूला गच्छन्ति बलदर्पिताः अपश्यन्त गिरिश्रेष्ठम् सह्यम् गिरिशतायुतम् सरांशु रामस्य शासनम् ज्ञात्वा भीमकोपस्य भीतवत् वर्जयन्नागराभ्याशाम् तथा जनपदानपि सागरौघनिभम् भीमं तद्वा नरबलम् महत् निःसर्पमहाघोरम् भीमघोषमिवार्णवम् तस्य दाशरथेः पार्श्वे शूरास्ते कपिकुञ्जराः तूर्णमापप्लुः सर्वे सदश्वा इव चोदिताः कपिभ्यामुह्यमानौ तौ शुशुभाते नरर्षभौ महद्भ्यामिव संस्पृष्टौ चन्द्रभास्करौ ततो वानरराजेन लक्ष्मणेन सुपूजितः जगाम रामो धर्मात्मा ससैन्यो सैन्यो दक्षिणाम् दिशम् तमङ्गतगतो रामम् लक्ष्मणः शुभया गिरा उवाच परिपूर्णार्थम् पूर्णार्थप्रतिभानवान् हृतामवाप्यवै देहीम् क्षिप्रम् हत्वा च रावणम् समृद्धार्थः समृद्धार्थामयोध्याम् प्रति यास्यसि महान्ति च निमित्तानि दिवि भूमौ च अनुवादि शिवो वायुः सेनाम् मृदुहितः सुखः प्रवदन्ति मृगद्विजाः प्रसन्नाश्च दिशः सर्वा विमलश्च दिवाकरः कुशना च प्रसन्नार्चरणुत्वाम् भार्गवो गतः ब्रह्मराशिर्विशुद्धश्च शुद्धाश्च परमर्षयः अर्चुष्वन्तः प्रकाशन्ते ध्रुवम् सर्वे प्रदक्षिणम् त्रिशङ्कुर्विमलो भाति राजर्षिः स पिता पुरोहितः पितामहः पुरोऽस्माकमिक्ष्वाकूणाम् महात्मना विमले च प्रकाशेते विशाखे निरुपद्रवे नक्षत्र पकूणा महात्म नैर ऋत नैर ऋता नक्षत्र पीड़्यते मूलो मूलवता स्पृष धूप्यते धूमकेतु चिनाशा राक्षसा मुपस्थित काले काल गृहताहपीड़म प्रसन्नाः सुरसाश्चापो वनानि फलवन्ति च प्रवान्ति नाधिका गन्धा यथर्तुकुसुमाद्रुमाः व्यूढानि कपि सैन्यानि प्रकाशन्तेऽधिकम् प्रभो देवानामिव सैन्यानि सङ्ग्रामे तारकामये एवमार्यसमीक्ष्यैतत्प्रीतो भवितुमर्हसि इति भ्रातरमाश्वास्य हृष्टः सौमित्रिरब्रवीत् अथा वृत्यमहीम् कृत्स्नाम् जगाम हरिवाहिनी ऋक्षवानरशार्दूलैर्नखदंष्ट्रायुधैरपि कराग्रैश्चरणाग्रैश्च वानरैरुद्धतम् रजः भीममन्तर्दधे लोकम् निवार्य सवितुः छादयन्ति ययो भीमाद्यामि वाम्बुदसन्ततिः उत्तरन्त्याश्च सेनायाः सततम् बहुयोजनम् नदी स्रोतांसि सर्वाणि सस्यम् दुर्विपरीतवत् सरांसि विमलाम्भांसि द्रुमाकीर्णांश्च पर्वतान् समान् भूमिप्रदेशांश्च वनानि फलवन्ति च मध्येन च समन्ताच्च चा तिर्यक्चाधश्च चाविशत् समावृत्यमहीम् कृत्स्नाम् जगाममहती चमूः ते हृष्टवदनाः सर्वे जग्मुर्मारुतरम् हसः हरयो राघवस्यार्थे समारोपित विक्रमाः हर्षम् वीर्यम् बलोद्रेकान् दर्शयन्तः परस्परम् यौवनोत्सेकजाद्दर्पा द्विविधांश्चक्रुरध्वनि तत्र केचिद्रुतम् जग्मुरुत्पेतुश्च तथा परे केचित् किल किलाञ्चक्रुर्वाणरावणगोचराः प्रास्फोटयंश्च पुच्छानि सन्निजघ्लुः पदान्यपि भुजान् विक्षिप्य शैलांश्च द्रुमानन्ये बभञ्जिरे आरोहन्तश्च शृङ्गाणि गिरीणाम् गिरिगोचराः महानादान् प्रमुञ्चन्ति क्ष्वेडामन्ये प्रचक्रिरे ऊरुवेगैश्च ममृदुर्लताजालान्यनेकशः जम्भमाणाश्च विक्रान्ता विजि क्रीडुः शिलाद्रुमैः ततश्शतसहस्रैश्च कोटिभिश्च सहस्रशः वानराणाम् सुघोराणाम् श्रीमत्परिवृतामही सा स्मयाति दिवारात्रम् महती हरिवाहिनी प्रहृष्टमुदिताः सर्वे सुग्रीवेणाभिपालिताः वानरास्त्वरिता यान्ति सर्वे युद्धाभिनन्दिनः प्रमोक्षैष वः सीताम् मुहूर्तम् क्वापि नावसन् ततः पादपसम्बाधम् नानावनसमायुतम् सह्यपर्वतमासाद्य वानरास्ते समारुहन् काननानि विचित्राणि नदी च पश्यन्नपि ययो मलयस्य च चम्पकाम् स्तिलकांश्चूतानशोकान् सिन्धुवारकान् तिनिशान् करवीरांश्च भञ्जन्ति स्म प्लवङ्गमाः अङ्कोलांश्च करञ्जांश्च प्लक्षन्यग्रोधपादपान् जम्बूकामलकान्नीपान् भञ्जन्ति स्वप्लवङ्गमाः प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः वायुवेगप्रचलिताः पुष्पैरवकिरन्तितान् मारुतः सुखसंस्पर्शो वाति चन्दनशीतलः षट्पदैरनुकूजद्भ्यर्वनेषु मधुगन्धिषु अधिकम् शैलराजस्तु धातुभिस्तु विभूषितः अधातुभ्यः प्रसुतोरेणुर्वायुवेगेन केतक्यःसिधुबाराश्च वासन्त्यश्च मनोरमाः माधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च पुष्पिताः चिरिबिल्वामधूकाश्च मञ्जुलावकुलास्तथा रञ्जकास्तिलकाश्चैव नादवृक्षाश्च पुष्पिताः चूताः पाटलिकाश्चैव कोविदाराश्च पुष्पिताः मुचुलिन्दार्जुनाश्चैव शिंशपाः कुटजास्तथा हिन्तालास्ति निशाश्चैव चूर्णका नीपकास्तथा नीलाशोकाश्च सरला अङ्कोलाः पद्मकास्तथा प्रीयमाणैः प्लवङ्गैस्तु सर्वे पर्याकुलीकृताः वाप्यैस्तस्मिन् चक्रवाकानुचरिताः कारण्डवनिषेविताः प्लवैः क्रौञ्चैश्च सङ्कीर्णा वराः मृगसेविताः वृक्षैस्तरक्षुभिः सिंहैः शार्दूलैश्च भयावहैः व्यालैश्च बहुभिर्भीमैः सेव्यमाना समन्ततः पद्मैः सौगन्धिकैः स्फुल्लैः कुमुदैश्चोत्पलैस्तथा वारिजैर्विविधैः पुष्पैरम्यास्तत्र जलाशयाः तस्य सानुषु कूजन्ति नाना द्विजगणास्तथा स्नात्वा पी जले क्रीडन्ति वानराः अन्योन्यम् प्लावयन्ति स्म शैलमारुह्य वानराः मूलानि कुसुमानि च बभञ्जुर्वानरास्तत्र पादपानाम् मदोत्कटाः द्रोणमात्रप्रमाणानि लम्बमानानि वानराः ययः पिबन्तः स्वस्थास्ते मधूरि मधुपिङ्गलाः पादपानवभञ्जन्तो विकर्षन्तस्तथा लताः विधमन्तो गिरिवरान् प्रययोः प्लवकर्षभाः वृक्षेभ्योऽन्ये मधुदर्पिताः अन्ये वृक्षान् प्रपद्यन्ते प्रपिबन्त्यपि चापरे बभूव वसुधातैस्तु सम्पूर्णा हरिपुङ्गवैः यथा कलमकेदारैः पक्वैरिवसुन्धरा महेन्द्रमथ सम्प्राप्य रामो राजीवलोचनः आरुरोह महाबाहुः शिखरम् द्रुमभूषितम् ततः शिखरमारुह्य रामो दशरथात्मजः कूर्ममीन समाकीर्णमपश्यत्स लीलाशयम् ते सह्यम् समतिक्रम्य मलयम् च महागिरिम् आसे समुद्रम् भीमनिस्वनम् अवरुह्य जगामाशु वेलावनमनुत्तमम् रामो वेलामासाद्य विपुलाम् रामो वचनमब्रवीत् एते वयमनुप्राप्ता सुग्रीवववरुणालयम् इहेदानीम् विचिन्ता सा यानः पूर्वमुपस्थिता अतः परमतीरोऽयम् सागरः सरिताम् पतिः न चायमनुपायेन शक्यस्तरितुमर्णवः तदिहैव निवेशोऽस्तु मन्त्रः यथेदम् वा नरबलम् परम् पारमवाप्नुयात् इतीव समःबाहुः सीताहरणकर्षितः रामः सागरमासाद्य वासमाज्ञापयत्तदा सर्वाः वेलायाम् हरिपुङ्गवा संप्राप्तो मन्त्रकालो नः सागरस्ये स्वाम् स्वाम् सेनाम् समुत्सृज्यमाच कश्चित् कुतो व्रजेत् गच्छन् दु वानरा शूरा ज्ञेयम् छन्नम् भयम् च नः रामस्य वचनम् श्रुत्वा सुग्रीवः सः लक्ष्मणः सेनाम् निवेशयत्तीरे सागरस्य द्रुमायुते विरराजसमीपस्थम् सागरस्य च तद्बलम् मधुपाण्डुजल श्रीमान् द्वितीय इव सागरः वेलावनमुपागम्य ततस्ते हरिपुङ्गवाः निविष्टाश्च परम् पारम् काङ्क्षमाणा महोदधेः तेषाम् निविशमानानाम् महो सैन्यसन्नाहनिःस्वनः अन्तर्धाय महानादमर्णवस्य प्रशुश्रुवे सावानराणाम् ध्वजिनी सुग्रीवेणाभिपालिता त्रिधा निविष्टा महती रामस्यार्थपराभवत् सा महार्णवमासाद्य हृष्टा वानरवाहिनी वायुवेगसमाधूतम् पश्यमाना महार्णवम् दूरपारमसम्बाधम् रक्षो गणनिषेवितम् पश्यन्तो वरुणावासम् निषे दुर्हर्यूथपाः चण्डनक्रग्राहघोरम् दिवसक्षये हसन्तमिव फेनोघैर्नृत्यन्तमिव चन्द्रोदये समुद्भूतम् प्रतिचन्द्रसमाकुलम् चण्डालिलमहाग्राहैः कीर्णम् तिमितिमिङ्गिलैः दीप्तभोगैरिवाकीर्णम् भुजङ्गैर्वरुणालयम् अवगाढम् महासत्त्वैर्नानाशैलसमाकुलम् सुदुर्गम् दुर्गमार्गम् तमगाधमसुरालयम् मकरैर्नागभोगैश्च उत्पेतुश्च निपेतुश्च प्रहृष्टा जलराशयः अग्निचूर्णमिवाविद्धम् भास्वराम्बुमहोरगम् सुरारिनिलयम् घोरम् पातालविषयम् सदा सागरम् चाम्बरप्रक्ष्यमम्बरम् सागरोपमम् सागरम् चाम्बरम् चेति निर्विशेषमदृश्यता सम्पृक्तम् नभसाप्यम्भः सम्पृक्तम् च नभोम्भसा तादृग्रूपे स्म तारा रत्नसमाकुले समुत्पतितमेघस्य वीचिमालाकुलस्य च विशेषो न द्वयोरासीत् सागरस्याम्बरस्य च अन्योन्यैरहताः सक्ताः स स्वनुर्भीमनिस्वनाः ऊर्मयः सिन्धुराजस्य महाभेर्य इवाम्बरे रक्तौघजलसन्नादम् विषक्तमिव वायुना उत्पतन्तमिव क्रुद्धम् यादो गणसमाकुलम् ददृशस्ते महात्मानो वाताहतजलाशयम् अनिलोद्धूतमाकाशे प्रबलान्तमिवोर्मिभिः ततो विस्मयमापन्ना हरयो ददृशस्थिताः भ्रान्तोर्मिजालसन्नादम् प्रलोलमिव सागरम् इत्यार्षे श्रीमद् आदिकाव्ये युद्धकाण्डे चतुर्थः सर्गः